अथैकषष्टितमः सर्गः वनम् धर्मरते रामे रमयताम् वरे कौसल्या चार्ता भर्ता रमिदमब्रवीत यद्यपि त्रिषु लोकेषु प्रथितन्ते महद्यशः सानुक्रोशोऽवदान्यश्च प्रियवादी च राघवः कथम् नरवरश्रेष्ठपुत्रौ तौ सह दुःखितौ सुखसंवृद्धौ वने दुःखम् सहिष्यतः सा नूनम् सुकुमारी सुखोचिता कथमुष्णम् च शीतम् च मैथिली विसहिष्यते भुक्त्वा शनम् विशालाक्षी सूपदंशान्वितम् शुभम् वन्यम् नैवारमाहारम् कथम् सीतोपभोक्ष्यते गीतवादित्रनिर्घोषम् श्रुत्वा शुभसमन्विता कथम् क्रव्यादसिंहानाम् शब्दम् श्रोष्यत्यशोभनम् महेन्द्रध्वज सङ्काशः क्वनु शेते महाभुजः भुजम् परिघसङ्काशमुपाधाय महाबलः पद्मवर्णम् सुकेशान्तम् पद्मनिश्वासमुत्तमम् कदा हृदयम् मेन अपश्यन्त्यानतम् यद्वै फलतीदम् सहस्रधा यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः निरस्ताः परिधावन्ति सुखार्हाः कृपणावने यदि पञ्चदशे वर्षे राघवः पुनरेष्यति जह्याद्राज्यम् च कोशम् च भरतो नोपलक्ष्यते भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान् ततः पश्चात् समीक्षन्ते कृतकार्याद्विजोत्तमान् तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरूपमाः ब्राह्मणेष्वपि वृत्तेषु भुक्तशेषम् द्विजोत्तमाः नाभ्युपेतुमलम् प्राज्ञा शृङ्गच्छेदमिवर्षभाः एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम्पते भ्राताज्येष्ठो ज्येष्ठोऽवरिष्ठश्च किमर्थम् नावमन्यते न ना परेणाहृतम् ना भक्ष्यम् व्याघ्रः खादितुमिच्छति एवमेव नरव्याघ्रः परलीढम् न मंस्यते हविराज्यम् पुरोडाशः कुशायूपाश्च खादिराः नैतानि कुर्वन्ति पुनरध्वरे तथा ह्यार्थमिदम् राज्यम् हृतसाराम् सुरामिव रामो नष्ट सोममिव अध्वरम् नैवम् विधमसत्कारम् राघवो मर्शयिष्यति बलवानिव शार्दूलो वालधेरभिमर्शनम् नैतस्य सहिता लोका भयम् महावीर्यो महाभुजः युगान्तैव भूतानि सागरानपि निर्दहेत स तादृश वृषभाक्षो नरर्षभः स्वयमेव हतः पित्रा जलजेणात्मजो यथा द्विजातिचरितो चरितो धर्मशास्त्रे दृष्टः सनातनैः यदि ते त्वया पुत्रे विवासिते गतिरेकापतर्नार्या द्वितीया गतिरात्मजः तृतीया ज्ञातयो राजंश्चतुर्थीनैव विद्यते तत्र त्वम् मम नैवासि रामश्च वनमाहितः न वनम् गन्तुमिच्छामि सर्वथाहा हता त्वया हतम् त्वया राष्ट्रमिदम् स राज्यम् हता स्म सर्वाः सह मन्त्रिभिश्च हता स पुत्रास्मि भार्या च तव प्रहृष्टौ इमाम् गिरम् दारुण शब्दसंहिताम् निशम्य रामेति मुमोह दुःखितः प्रविवेश पार्थिवस्वदुष्कृतम् चापि पुनस्तथा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकषष्टितमः